हर ओम श्री सीतामचंद्रभ्या अथ श्रीमदवायण अयोध्या सर्ग श्रीराम से आजाया गुहेन स्व्य द्वार नौकान श्रीराम से मंत्र पति अयोध्या आदेश मातु पिता सन्देश श्रावण स्वयं गंत आग्रह क सुमन्त्रस्य श्रीरामेण सप्रबोधनम् निवर्तनम् श्री आरोहणम् सीता गङ्गाम् प्रति प्रार्थना नौकया गङ्गामुत्तीर्य श्रीरामादीनाम् वत्सदेशे गमनम् सायम् वृक्षस्य मूले निवासनाय प्रस्तानम् च प्रवापायाम् तु शर्वर्याम् पृथुवक्षयश उवाच रामसौ मेत्रीम् लक्ष्मणम् शुभलक्षणम् भास्करोदयकालोऽसौ गता भयगवती निश असौ सुकृष्णो विहगृ कोकिलस्तात कूजति वर्षीणानाञ्च निर्घोष श्रूयते न दताम् वने तरा मादाह्नवीं सोम्य शीघ्रगाम् सागरङ्गमाम् विद्याय रामस्य वचः सौमित्रिमित्रन्दनः गुहं मामन्त्रसूक्तम् चोतिष्ठ ध्रातुरग्रुतः स तु रामस्य वचनं निशम्य प्रतिगृह्य च स्थपति सुवर्णमाहूय सचिवान् अस्य वाहन संयुक्ताम् कर्णग्राह्यवतीं ृढां तीर्थे शीघ्रं नावम् उपाहरे तं निशम्य गुहादेशम् गुहामात्यो गतो महन् उपोह्य रुचिरां नावम् गुहाय पत्यवेलयेत् ततः प्राञ्जलिर्भूत्वा गुहोराघवम् अब्रवीत् उपस्थितेयम् नव देवे किं गर्वाणि प्रख्य तर्तुम् सागरगामिनिम् नौर्यम् पुष व्याघ्रे शीघ्रम् आरोह सूरत अथोवाच महातेजा रामो गुहम् विदुम्बच कृत कामोऽस्मि भवता शीघ्रम् आरोप्यतामिति ततपालान् सन्मह्ये खड्गो जग्मुतुर्येण ताम् गङ्गाम् सीतया सह राघवौ रामम् एवम् धर्मज्ञम् उपागत्य विनीतवत् किमहम् करवाणीति सूत प्राञ्जलिरब्रवीत् सतो ब्रवीता श्रुती सुमन्त्रम् स्पृशङ्करेणोत्तमदक्षिणेन सुमन्त्रशीघ्रम् पुनरेव याहि या, काशे राजा सकाशेचा प्रम्त निवर्तस्वेनम एक मम रथम विहाय पद्यामस गमीष्यावनम आत्माभ्युत अवेख्यात स सारथी सुमंत्रघ्र ऐक्वा कब्रवीत नातिक्रान्तम् इदम् लोके पुरुषेणेह केनचित् तव स भ्रातृभार्यस्य वासप्राकृतवद्मने न मन्ये ब्रह्मचर्ये वा स्वधीते वा फलोदय मार्दवार्दवयोर्वापि तम् चेद्वसनमागतम् सः राघव वैदेह्या भ्रात्रा चैव वै सङ्गतिं प्राप्स्यते वीरे त्रीन्लोकान् सूचयन्वे वयं वयम् हता राम ये त्वया हि उपवञ्चिता कैकेय्यावशमे कै यास्याम पापाय दुःखभागिनः इति ब्रुवन्नात्मसमं सुमन्त्र सारथीर्थ दुर्गा दूरगतम् रामम् ततस्तु विगते वाष्पे सूतं स्पृष्ट्वोदकम् शुचिम् रामस्तु मधुरम् वाक्यम् पुनपुन पुनवाचदम् इक्ष्वाकोणां त्वया तुल्यम् सुहृदम् नोपलक्षये यथा दश राजा मां न शोचेत् तथा कुरु शुकोपहत चेताश्च वृद्धश्च जगति कामभारावसन्नश्च तस्मादेतद्ब्रवीमिति यत् मथा ज्ञापयेत् किञ्चित् स्वयमहात्मा हि पतिः कैकय्या प्रियकामासन् कार्यम् तद्विकाङ्क्षया एतदसं हि राज्यानि प्रशासयति नरधिपर यदेषां मनो न प्रतिहन्यते यद्यथा स महाराजो नालीकम् अधिगच्छति न च तामिति शोकेन सुमन्त्र कुरु तत् तथा अदृश्च दुःखम् राजानम् वृद्धमार्यम् जितेन्द्रियम् भूयास्तम् अभिवाद्यैव मम हेतो इदम् वचः न चाहम् लक्ष्मणो न अयोध्यायाच्युता चेति वनैवस्या महेति वा चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः लक्ष्मणं मां च सीतां च द्रक्ष्यसे शीघ्रमागताम् एवम् उक्त्वा तु राजानम् मातरं च सुमन्त्रमे अन्या च देवी पुनः पुनः आरोग्यम् ब्रूहि कौसल्याम् अथ पादाभिवन्दनम् सीतायामचार्यस्य वचनाद् लक्ष्मणस्य च ब्रूया महाराजम् भरतम् क्षिप्रमाणय आगते चापि भरत स्थाप्यो मते पदे भरतम् च परिष्वज्य यौवराज्येऽभिषेच्य च अस्मत्सन्तापज दुख्य भरते यथा वक्त यथाज तथा वर्तेत सर्वसे विशेषते य कैकेयी सुम्रा चाशेषा तथैव देवी कौसल्या मम माता विशेषते तातस्य प्रियकामेन यौवराज्यम् अपेक्षतः लोकयो उभयो शक्यम् निश्चितः सुखमेधितुम् निवर्त्यमानो रामेण सुमन्त्र प्रतिबोधितः तत्सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थमब्रवीत् यदहम् नोपचारेण ब्रूह्याम् स्नेहादविक्लवम् भक्तिमा तव वाक्यं तम कंटर् कथम हिस्म प्रति वियोगेन पुत्र शोकाम पितावन् र्वा तदराज विनारा रथम दृष्ट विजी दैन्यगरी गच्छे दृष्टाशून्यम् इमम् रथम् सूतावशेषम् त्वम् सैन्यम् हतवीरम् इवाहवे दूरेऽपि निवसन्तम् त्वाम् मानसेनाग्रतस्थितम् चिन्तयन्तो जनमुनम् त्वाम् निराहारः कृता प्रजा दृष्टम् तद्वै तया राम तच्छोक क्लान्तचेतसाम् आसनादो हि योरै उन्मत्तस्त्वप्रवासने स्वरथम् माम् निजाम्यैव कुर्युषतः गुणम् ततः अहम् किम् चापि वक्ष्यामि देवीम् तव सुतो मया नीतोऽसो भ्रूयाम् वचनम् ईदृशम् कथम् अप्रियमेवाहम् भ्रूयाम् सत्यम् इदम्बच मम तावन् योऽस्था तद्बन्धुजनवाहिनः कथम् रथम् तया हीनम् प्रवाह्यन्ति हयोत्तमः तन्न शक्याम्यहम् गन्तुम् अयोध्याम् तदृतेनघ वनवासानुयानाय माम् अनुज्ञातुमर्हसि यदि मे याचमानस्य त्यागम् एव करिष्यसि स्वरथोऽग्निम् प्रवेक्ष्यामि त्यक्तमात्र हि त्वया भविष्यन्ति वनेयानि तपोविघ्न रथेन प्रतिपादिष्ये तानि सर्वाणि राखवे सत्कृतेन मया प्राप्तम् रथचर्या कत सुख आशंसे तत्तेन वनवास कृत सुखीछा तेरण्ये भवि प्रत्यन प्रीत्याभिचा प्रत्यन इमेहयादि वनवासीन परिचर्या क्य प्राप्यन्ति परमाम् गतिम् तव शुश्रूषणम् मूर्ध्ना करिष्यामी वने वसन् अयोध्याम् देवलोकम् वा सर्वथा प्रजाम्यहम् न हि त मया अयोध्या त्वया विना राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा वनवासे क्षयम् प्राप्ते मम एष हि मनोरथ यदनेन रथेनैव साम्भरेयम् पुरीम् पुनः चतुर्दश हि वर्षाणि सहितस्य त्रयबले क्षणभूतानि यास्यन्ति षट् सङ्ख्यानि चान्यथा भृत्यवर्तलतिष्ठन्तम् भर्तृ पुत्र गते पथि भक्तम् भृत्यम् स्थितम् स्थित्य न माम् तम् हातुमर्हसि एवम् बहुविधम् दीनम् याचमानम् पुन पुन रामो भूत्यानुकम्पतु मिदम इदमब्रवीत् जानामि परमाम् भक्तिम् अहम् ते भर्तृवत्सल शृणु चापि यदर्थम् त्वाम् प्रेषयामि पुरीमितः नगरीम् दृष्ट्वा जननी मेय वीयसे कैकई प्रत्यय गच्छे शंकेते, गयी राज्य संकेत मिथ्यावादी धाको जलंबा मेय वीयसे भर्ता स्फीत पुत्र राजम् अवाप्स्यते मम प्रियार्थम् राज्ञश्च स्वमन्त्रे त्वम् पुरीम् तान्तां सन्देशश्चापि यानाथाम् तान् तान् ब्रूयास्तथा तथा इत्युक्त्वा वचनम् सूतम् सान्त्वयित्वा पुनः पुनः गुहम् वचनमक्लीबो रामो हेतुम् अदप्रवी नैदानीम् गुहयोग्योऽयम् वासो मे सजने वने अवश्यम् आश्रमे वास कर्तव्यस्तद्गतो विधि सोऽहं गृहीत्वा नियमम् तपस्वी जनभूषणम् हितकामापितुर्भूय सीताय लक्ष्मणस्य च जटा कृत्वा गमिष्यामि न ग्रोधक्षीरमानय तत्क्षीरं राजपुत्राय गुह सुक्षिप्रमुपाहरेत् लक्ष्मणस्यात्मनश्चैव रामस्ते नाकरो जटाः दीर्घबाहू नरव्याघ्रो जटिलम् अधारयेत् तौ सदा चिरसम्पन्नौ जटामण्डलधारिणौ अशोभेताम् रामलक्ष्मणौ ततो वैखानसम्मार्गम् अस्थितः सः लक्ष्मणः पतम् आदिष्ट बालराम साय्यम् गुहम अब्रवीत् अप्रमत्तो बले कोशे दुर्गेजन जनपदे तथा भवेथा गुहराज्यं हि दुरारक्षमं मतं ततस्ताप्य गुहम् वीक्षा कुनन्दन् जगामतूर्णम् अव्यग्र स भार्य सः लक्ष्मणः स तु दृष्ट्वा नदीतीरे नावम् इक्ष्वा कुनन्दनः सी शीर्षु शीघ्रगाम् गङ्गाम् इदम् वच नमब्रवीत् आरोह तम् नरव्याघ्र स्थिताम् नावम्यमांशनैः सीताम् चारोपयान् वक्षम् परिगृह्य मनस्विनीम् स भ्रातु शासनम् श्रुत्वा सर्वम् आरोप्य मैथिलीम् पूर्वम् आरुरोहात्मवान् तथे अथारुह तेजस्वी ततो निषादाधिपति गो न्याति न चोदयत् राघवोऽपि महातेजा नावम् आरुह्यताम् ततः ब्रह्मवच्छत्रवच्च जाप हितमात्मनः हे आचम्य च यथा शास्त्रम् नलीं तां सीपय प्रणम प्रीतिसन्तुष्टो लक्ष्मण च महारथ अनुध्याय सुमन्त्रम् च सबलम् चैव तम् गुहम् आस्थाय रामस्तु चोदया मास नाविकान् सत पैचाविता नौका समाहित शुभस्य वेगाधीयत शीघ्रम् सलिलमत्यगात् मध्यम् तु तमनुप्राप्य निन्दिता वैदेही प्राञ्जलिर्भूत्वा तां नदीम् इदमब्रवीत् पुत्रो दशरथस्यायम् महाराजस्य धीमतः निदेशम् पालय त्वेन गङ्गे त्वदभिरक्षितः चतुर्दश हि वर्षाणि समग्रान्वेषुष्यका नदी ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ततः स्वां सुभगे क्षेमेण पुनरागत यक्षे प्रमोदिता गङ्गे सर्वकामा समृद्धिनी त्वं हि देवि ब्रह्मलोकम् समक्षसे भार्या चोदधिराजस्य लोकेऽस्मिन् तम् प्रदृश्यसे तास्ताम् देवी नमस्यामि प्रशंसामि च शोभने प्राप्तराज्येन व्याघ्रे शिवेन पुनरागते गवां चेत सहस्रं च वस्त्राण्यन्नम् च पेशलम् ब्राह्मणेभ्य प्रदास्यामि तव प्रिय चिकित्सया सुराघट सहस्रेण मासभूतोदनेन च यक्षेताम् प्रीयताम् देवी पुरीम् पुनरुपागता यानि त्वत्तीरवासिनी दैवतानि च सन्ति तानि सर्वाणि यक्षामि ती न्यायेतनानि च पुनरेव महाबाहू मया भ्रात्रा च सङ्गतः अयोध्याम् वनवासा तु प्रविशत्त घोनघे तथा सम्भाषमाणा सा सीता गङ्गाम् अनिन्दिता दक्षिणा दक्षिणम् तीरम् क्षिप्रम् एवाभ्युपागा पागमत् तीरं तु समनुप्राप्य नावं हित्वा न दर्शभे प्रातिष्ठत् स भ्रात्र वैदेह्या च परन्तप अथा ब्रवीन्नः सुमित्रानन्दवर्धनम् भव संरक्षणाय स जने विजनेऽपि वा अवश्यम् रक्षणम् कार्यम् मद्विधैर्विजने वने अग्रतो गच्छसौमित्रे सीता त्वाम् अनुगच्छतु पृच्छतो नो गमिष्यामि सीताम् तान् चानुपालयन् अन्योन्यस्य हि नो रक्ष कर्तव्या पुरुषर्च न हि तावदति क्रान्ता सुकरा काचन क्रिया अद्य दुःखम् तु वैदेहि वनवासश्च वेत्स्यति प्रणच्छ जनसम्बाधम् चित्राराम विवर्जितम् विषमम् च प्रपातम् च वनम् मध्य प्रवेक्ष्यति श्रुत्वा प्रतस्थे लक्ष्मणो गतः अनन्तरं च सीताय राघवो रघुनन्दने गतं तु गङ्गाय परपारमाशु रामं सुमन्त्र सततं निरीक्ष्य अर्धप्रकाशाद् विनिवृत्त दृष्टि मुमोच वाष्पं व्यथितस्तपस्वी स लोकपाले प्रतिमा प्रभाव महानदीम् शतस्त रुद्धान् शुभशस्य मालिन क्रमेण वत्सान् मुदितान् प्रागमयत् तौ तत्र त्वाय चतुर् महामृगान् वरः मृष्यम् पृषतं नुरम् इत्याश्री श्रीमद् रामायणे वाल्मीकीयाधिकारी अयोध्याखण्डे द्विपञ्चाशे दर्ग श्रीसीतारामचन्द्राणमस्तु